रामपहर्तारम् दातारं सर्वसम्पराम लोकाभिरामं श्रीरामम् भोर धूरवाहं रामाय रामचन्द्राय रामभद्रा ना थाय नाय चेताय पतये मम अतुलितबलधामं कर्णसेनाभदेहं धनुजवनत्रसारणं ज्ञानिना माद्रगण्यं सकलगुणनिधा नराणामदेशम् रघुपतेवरदूतं वातजातं प्रवाणि दोष्पदे कृतवारिसं मचके कृतराक्षसं रामायण महा ञ्जनानन्दनं वीरं जानकीशोकनाशनम् कपे समर्थहन्तारम् वन्दे लङ्कामयं करम् उल्लङ्घ सिन्धो सलिलं सलेलं यशो वन्धिं जनका नदाय आदायतेनैव नमामितं प्राञ्जलराञ्जरेयं हरोदवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां नरिष्टम् त्मनं वा नरजोतमक्षं ते रामज्योतं त्रिरसारवायभाञ्जनेयमतिपादनादं काञ्चनाद्रिकमलेय विग्रहं पारिजातरुपोनवासिरम् यत्र यात्र रघुनाथ चिन्तनं तत्र तत्र कृतमस्तथाञ्जलन् वाष्मवारि परिपूर्णलोचनं भारतीं नमतरा तथा न इति अष्टोत्तरशतनामरामायणम्